महेशविलेशयभूषण भोशगिरीश नरेश परेश महेश विलेशयभूषणो सौम्य सदाशिव शम्भोशङ्कर शरणं मे तव चरणयुगम् सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् तां शरणं मे तव चरणयुगम् शरणं मे तव चरणयुगम् शरणं मे तव चरणयुगम् Omangala vikkayaninditavamaanga vibo Umaya divya sumangala vikka शरणं मे तव शरणयुगं सां सदा शिव शम्भो शरणं मे तव चरणयुगं सां सदा शिव शम्भो शरणं मे तव चरणयुगं चरण शरणं मे तव चरणयुगम् स्थितिलयकारणभो जननस्थितिलयकारणभो अन्तःकरणविशुद्धिं भक्तिम् अन्तःकरणविशुद्धिं भक्तिं चत्वारि सतिं प्रदे विभो साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगं साम सदा शिव शम्भो शरणं मे तव चरणयुगं सां सदा शिव शम्भो शरणं मे तव चरणयुगं शरणं मे तव चरणयुगं शरणं मे तव चरणयुगम् प्रमदगणाधीशभू दुराजित भो साम सदा शिव शम्भो शरणं मे तव चरणयुगम् साम सदा शिव शम्भो शरणं मे तव चरणयुगम् साम सदा शिव शम्भो शङ्कर रणं शरणं झडु तक झङ्किणु झडु तत् कीट तक शब्दरि नट सिमटो कडु तक झङ्किनु तत् किटतक्षप्तर् नटसिंहानट भो धर्मस्थापनदक्षत्रयक्ष गुरो दक्षयज्ञ भो सम्भ सदाशिव शम्भो शङ्क शरणं मे तव चरण सदा शिव शम्भो शरणं मे तव चरणयुगम् ताम सदा शिव शम्भो शरणं मे कव चरणयुगम् शरणं मे तव चरण शिव शम्भो शङ्क शरणं मे तव चरणयुगं सांब सदा शिव शम्भो शङ्क शरणं मे तव चरणयुगं साम्ब सदा शिव शम्भो शङ्क शरणं मे तव चरणयुगं शरणं मे तव चरणयुगम् सर्वदेवो सर्वोत्तम सर्वदुरत गर्वरणविभु सर्वदेव सर्वोत्तम सर्वदा दूरव्रत गर्वविभो गर्वहरणविभो षड् रिपुषडूर्मि षड्विकार षड् द्विपुषडूर्मिषड्विकारषण्मुख षण्मुख जनक विभो समर सदा शिव षण् शुभो शङ्कर शरणं मे तव चरणयुगम् साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुग साम्ब सदा शिव शम्भो सत्यं ज्ञानमनल् तं ब्रह्मे तैतत् लक्षणलक्षितवो सत्यं ज्ञानमनल् पदानपदविभो साम्ब सदा शिव शम्भो शङ्क शरणं मे तव चरणयुगम् साम्ब सदा शिव शम्भो शङ्क शरणं मे सदा शिव शम्भो शङ्क चरण Serene yoga